अथ दशमोऽध्यायः नारद उवाच सभा वैश्रवणी राजन्क्षतयोजनमागता विस्तीर्णा सप्ततिश्चैव योजनानि कैलासशिखरोपमा गुह्यकैरुह्यमाना सा खे विशक्तेव शोभते दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता महारत्नवती चित्रा दिव्यगन्धा मनोरमा सिता भ्रशिखराकारा प्लवमानेव दृश्यते दिव्या तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः त्रिसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः दिवाकरनिधे पुण्ये दिव्यास्तरणसंवृते दिव्यपादोपधाने च निषण्णः परमासने मन्दाराणामुदाराणां वनानि परिलोडयन् सौगन्धिकवनानां च गन्धम् गन्धवहो वनस्य च शीतोहृदयसंह्लादि वायुस्तमुपसेवते तत्र देवा स विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा वर्गा च सौरभेयी च समीचीबुद्बुदालता एता सहस्रशश्चान्या नृत्यगीतविशारदाः उपतिष्ठन्ति धनदं गन्धर्वाप्सरसाङ्गणाः अनिशं दिव्यवादित्रैर्नृत्यगीतैश्च सा सभा अशून्या रुतिरा भाति गन्धर्वाप्सरसाङ्गणैः किन्नरा नाम, नाम तथा परे मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः कशेरको गण्डकण्डोः प्रद्योतश्च महाबलः